यस्मात् यस्मात्तुलोके दृश्यन्ते क्षमिनः पृथिवी समाः तस्मात् जन्मच भूतानां भवश्च प्रतिपद्यते क्षन्तव्यम् पुरुषेणेह सर्वापत्सु सुशोभने क्षमावतो हि भूतानाम् जन्म चैव प्रकीर्तितम् आकृष्टस्ताडितः क्रुद्धक्षमतेयो बलीयता यश्च नित्यञ्जित क्रोधो विद्वानुत्तमपूरुषः भाववानपि नरस्तस्य लोकाः सनातनाः क्रोधनस्वल्प विज्ञानः प्रेत्यचेह च नश्यति अत्राप्युदाहरन्तीमागाथा नित्यम् क्षमावताम् गीता क्षमावता कृष्णे काश्यपेन महात्मना क्षमा धर्मक्षमा यज्ञमा वेदा क्षमा श्रुतम् य ये तदेवम् जानाति स सर्वम् क्षन्तुमर्हति क्षमा ब्रह्म क्षमा सत्यम् क्षमाभूतम् च भावि च क्षमा तपक्षमाशौचम् क्षमयेदन्धृतम् जगत् अतियज्ञविदाल्लोकान् क्षमिणः प्राप्नुवन्ति च अतिब्रह्मविदाल्लोकानतिचापि तपस्विनाम् अन्ये वैयजुषाल्लोकाः कर्मिणामपरे तथा क्षमावताम् ब्रह्म लोके लोकाः परमपूजिताः क्षमा तेजस्विनाम् तेजक्षमा ब्रह्म तपस्विनाम् क्षमा सत्यम् सत्यवताम् क्षमा यज्ञक्षमा क्षमः